मुकुटानि महर्हाणि हेमवर्णंश्च कुण्डलान् हेमपुष्पाण्यनेकानि रुक्ममाल्यानि चापरान् शङ्खांश्च चन्द्रसङ्काशान् च तावर्तान् विचित्रिणः चन्दनानि च मुख्यानि रुक्मरत्नान्यनेकषः वासांसि चमहर्हाणि कम्बलानि बहून्यपि अन्यां सविविधान् राजन् रत्नानि च बहूनि सददौ सह देवाय तदा राजा विभीषणः ततः सम्प्रेषयामासारत्नानि विविधानि च चन्दनागुरुकाष्ठानि दिव्यानाभरणानि च वासांसितमह्राणि मणिंश्चैव महाधनान् विभीषणं निर्जगामघटोत्कचः तानि सर्वाणि रत्नानि अष्टाशीतिर्निषाचराः आजहृःसमुदा राजन् जगामतूर्णम् लङ्कायाः सह देवपदम् प्रति आसे दुःपाण्डवम् सर्वे लङ्घयित्वा महोदधिम् सह देवोदर्शाथा रत्नाहारान् निशाचरान् आगतान् भीम सङ्काशान् हैडिम्बं च तथा नृपा द्रमिलान्नैऋतान् दृष्ट्वा रुद्रुपुस्ते भयार्दिताः भैमसेनिस्ततो गत्वा माद्रेयम् प्राञ्जलिः प्रीतिमानभवद्दृष्ट्वा रत्नौघं तम् च पाण्डवः तम् परिष्वज्य पाणिभ्याम् दृष्ट्वा तान् प्रीतिमान् विसृज्य द्रमिलान् सर्वान् गमनायोप चक्रमे न्यवर्तत ततो धीमान् सह देवः एवम् निर्जित्य तरसा विजयेन च करदान् पार्थिवान् कृत्वा प्रत्यागच्छदरिन्दमः रत्नभारमुपादाय ययौ सह निशाचरैः इन्द्रप्रस्थम् विवेशाथा कम्पयन्निव दृष्ट्वा युधिष्ठिरम् राजन् सह देवः कृताञ्जलिः प्रहोऽभिवाद्यतस्थौत्सा पूजितश्चैव तेन कोटिसहस्रकम हिण्य महात्म विचिस्तुमणी गोजा विमिषास्त धर्म तत्स नि भरतर्ष भर्मा सुखमुवास जन इति श्री महाभारते सभापर्वि दिग्विजय पर्व सह दक्षिण दिग्विजय एक